मुद्गलपुराण खंडम नयन योगचरतम अध्या नयनटीन पुराणश्रवणादिविधिवर्णनम श्रीगणेशा नम सूत येग भुक्त उच समायुक्तो सुक्तरायण ब्रह्मचर्यसमुक्त समाय। रात्र सुप्या अनृतादिकमेवं सन्ध्यजेत् सर्वं समाहितः हविष्यान्नं च भुक्त्वा तु शृणुयादिदमुत्तमं गणेशसन्निधाने वै वने वा स्वगृहे स्थितः शृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः अथवा कामनायुक्तो आमो वा भवेन्नरः शृणुया नियमे संस्थः सद्यश्च फलं लभेद यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः दधवा विप्र पुराणमिदमुत्तमं ब्राह्मणः क्षत्रियो वापि वैश्यो वा शृणुयादिदम् शूद्रश्चेद्ब्राह्मणं कश्चित् पुरस्कृत्य समाहितः भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनं पारायणमौद्गलस्य श्रोतव्यं तैरुपोषितैः माकसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् पारायणं मौद्गलस्य श्रोदव्यं सर्वसिद्धये अथ वा भाद्रमासस्य प्रतिपत्तः समारभेद अश्विन्यां पूर्णिमायां तत्पुराणं च समापयेत् एवं मा के तया ज्येष्ठे सार्धमासैकमानतफ मौद्गलं पूर्णम् सर्वभाव यण अथवा भाद्रमासे भेद साररभेदुराण मौदल विप्र शुणु या दुवर्षमात्रत पुनर्भाद्रपम प्राप्य चईकभुक्तरायण प्रतिपरा भवदचार पञ्चम्याम् मौद्गलम् पूर्णं समापयतु तन्नरः एवं श्रुत्वा फलं सद्यो लभे दीप्सितमञ्चसा विधिं तत्र प्रवक्ष्यामि मण्डपम् कारयेन्नरः तोरणादिसमायुक्तम् नानाशोभासमन्वितम् आदौ गणेश्वरं तत्र पूजयेत पुस्तकं तदः ततोमुद्गलविप्रेन्द्रं सुकं योगविशारदं पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ ततः पौराणिकं शान्तं पूजयेद्भावसंयुतः ततः श्रोतृगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः पौराणिकं ततः पुण्यं शृणुयादिदमुत्तमम् अर्धेन संयुधं सर्वं मौद्गलं शृणुयान्नरः सर्वार्थनिपुनस्तेन सर्वसिद्धियुधो भवेद् यदा चतुर्दिनैश्राव्यं तदार्थपरिवर्जितं पारायणं समाख्यातं सर्वसिद्धिप्रदायकं नित्यमुत्सवसंयुक्तो भवेद् धर्मपरायणः नानादानरथो भूत्वा ब्राह्मणादींश्च भोजयेद् गणेशप्रीदये सर्वं कुर्याद्धीमान्निरन्तरं विदित्वा धन्यमात्मानं शृणुयादिदमुत्तमम् अन्ते गणेश्वरं सोऽपि पुराणं पूजयेत्परैः राजोपचारकाद्यैस्तु भक्तिभावसमन्वितः ततः पौराणिकम् पूज्य तोषये तं धनादिभिः रत्नाद्यै हषसंयुक्त प्रार्थयेन्नम्रकन्धरः तारितोकं त्वयानाथ पुराणश्रावकेन वै अधुना कृतकृत्योऽहं जातस्ते पाददर्शनाद एवम् प्रार्थ्यनमस्कृत्य ततः सर्वान् समागतान् समादोष्य ततस्तं स विसर्जयेत् पौराणिकं ततोभूय समानीय महायशः श्रोदृनन्यान् द्विजादींश्च भोजयेन्मोदकादिभिः ततस्तान् स नमस्कृत्य पारण्णं यः समाचरेद एव मीप्सितकं प्राप्ये हान्दे ब्रह्ममयो भवेद अथ वामौद्गलं विप्र शृणुयान्नित्यमादराद यदेच्छया क्षमायुक्तस्वेच्छा भोजनकारकः ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः गणेशप्रिदये हर्षात् सर्वसिद्धिं लभेत् पराम् अकिञ्चनोऽपि विप्रेष्य शृणुयाद्भक्तिसंयुतः यथाशक्तिविधानेन स पूजादिगमाचरेद शमीमन्तरदूर्वाद्यैरथ वा यत्समर्चयेद् ये फलं सर्वं लभेत्सोऽपि पूजादानादिजं परं यादृशो विभव स्वस्य तादृशं स समाचरेद तेन विघ्नेश्वरप्रीतो भवेत् सर्वप्रदायकः श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमे भवात् शृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः किं पुनः श्रद्धया युक्तः पुराणं शृणुयात् सम्पूर्णं तस्य विप्रेष्य सफलं जननं भवेद् नित्यं यशृणुयाद्भक्त्या सर्वमाप्यसविप्रप दर्शनसर्वजन्तूनां तारको भवति प्रभुः यथा गणेश्वरो देवस्तथा सौ नात्र संशयः ब्रह्मीभूत इव प्राज्ञस्तिष्ठे द्वै भूमिमण्डले एतत् ते स विधिश्रवणं परं पठनं तु पुराणस्य मौद्गलस्य समासतः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगजरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ओम्